wo यज्ञे प्रजापल्य प्रजा असृज रता उपयध्य देवासृज उपयजलि प्रजा ये सृजनाद्धाद्धाध्य प्रजा प्रजायन्तेष्ठवि मतोवद्यवि मतो हि प्रजाः प्रजायन्ते सम्भ्यन्दन्यवद्य प्राणाम सम्भेदा पर्यावर्तयेत्पर्यावर्तयेऽसृदावर्तः प्रजा ग्राहुकस्यात्समुदं गच्छ स्वाहेत्याहरेत क्षं गच्छस्माहेत्याहन्तरक्ष नैवास्मै प्रजा प्रदनयत्यन्तरिक्षण प्रजाः प्रजायन्ते देवगुंसवितारं गच्छस्माहेत्याह चमै प्रजा प्रजनयत्यः रात्र गच्छस्माहेत्याहोरात्राभ्यामेवास्मै प्रजा प्रदनयत्यः रात्रे क्षण प्रजाः प्रजायन्ते मित्रा वरुण गवाहे प्रजास्व प्रजाण्छस्वाहे सौम्या प्रजाज गवाहेजा कन्दागंछ स्वाहेन्दागंथो नैंध्य ्या वा पृथिवे प्रजा एव प्रजाता वा पृथिवे न स्वाहेत्याः प्रजाभ्येव प्रजाताभ्यो वृत्तिं गच्छस्वाहेत्याः प्रजा एव प्रजाता अस्याम् प्रतिष्ठापयति प्राणानाम् कृतस्य मनोमेहाे त्याः प्राणानेव यथा स्थानमुपयते पशोवालब्धस्य हृदय गोसुरक्षयसा हृदय सोनमभिनवेदयत् पृथिव्यागो हृदय सोणमुद्वासये पृथिवेदौ शुचात्मयसवशः शुचात्मये शुष्कश्च चात्रश्च संसारुभयश्च शान्ते यन्धश्चायच्छुतेन ेवरीणाम् वसदेव तम् तस्मिन् प्रापम् न समशक्तुमन्तयन्तावस देवरेभवन् वसदेवरे ग्रन्थादियज्ञोरे वसदेवरे यज्ञमेवारभ्य गृहेत्वापवस यस्या गृहेता अभिनिम्नो चेतनारब्धोऽस्य यज्ञस्याः दैज्ञम् विच्छिन्नाज्यो निश्चा गृह्णेयाध्यम् वा ग्रन्था ब्राह्मणो बहुयाजीरस्य हि गृहे तव देवरे को वस देवरे गृह्णादिवारभ्य गृहे सदा गृह्णादया एवमेव गृह्णादीना तवा वहन्ते रदीया दृढं तवा वहन्ते रदीया जज्ञवधिमन्ये धनस्थावराना गृह्णीया गरुणगृहे स्थावराय स्थाना गरुडेलास्त्रे भवत्यपोरात्रदर्शी चादपदस्य गन्धो ग्रन्था ग्रन्थादि हविष्पदेवा मयत्याः हविष्कृतानामेव ग्रन्थादि हविष्मागुभस्तसोत्याः शुक्राणामेव ग्रन्थात्यष्पन्धा ष्टग् देवैनाः सर्पया ग्रन्धायतुष्पदयच्चारन्धाय त्रिस्तादेव सप्तदं सप्तपदाषट्पदे पशवश्चेवान्धेश्व लोकाय गार्गवत्युष्णाः भजीयो यद्गार्गवत्यमुपसादये तस्मिन् लोके पशुवां स्याच्विह वणीयमुष्णं लोके पशुवान् स्यादुभयोपसादयत्युभयो देवैनं लोकया उपवासय देदज्ञस्यापराजरङ्गलाग्नेः राजदन्तदेवैनामुपवासय जयदः खलु वे यज्ञ नो रक्षाकस्यीनां नारायण चेतादैरयञ्चादरीय समः परिहेक्यस्य सन्तत्यै ब्रह्मवादिना वदन्ति सत्त्वा ध्वर्यस्याजस्वाममुपावहरन् सर्वाभ्यो देवताभ्योपावहयदेवत्याः देवेद्भय स्ताब्दय धर्म त्येव यज्ञमेवाभि सर्वाणि छन्दागस्यन्वाहपदो मे छन्दागंति पशो नेमावरुन्धे गायत्र्यायस्कामस्य परिदध्या पृष्टुभे निजगामस्य जगत्या पशुगामस्यानुष्ठुभा प्रतिष्ठा गामस्य पञ्चायज्ञकामस्य विराजा ैवरुणस्य वरुणो वाच्छै च देवेना भुत्यैवेष्टै गन्धा यतो हविष्कृतानामेवतानाम् ृह्णाधिकारे समुद्रस्य मोक्षत्यामण्ड नैत्याहतस्मादमाना स्पीयमाना आपो न क्षीयम् तेजो जर्मे यज्ञस्य चात्पादैयज्ञो वसदेवरे च मैत्रावर्णचज्ञानज्ञस्येनायो नेष्प्रजलयक् निष्टो हमन्न मुद्मा पश्चिमेदाजोमो जुोदय जुक्ष रात्र प्रपद्य यदूनावत् देवस्य दासमिदः प्रथम यदि ग्रावा ने प्रसोत्याश्मिनो बाहुभ्यामित्याहाश्विनो हि देवालास्ताहस्ताभ्यामित्याहयत्ते पशवो वे सोम ज्ञानमेव पशुतसधातेन्द्रायत्केन्द्रायत्केजिभिमेदैन्द्रा योमः प्रियदेवम् क्षरापङ्वान्त यज्ञो यज्ञापरन्धे पञ्चकृतस्तोष्णेन्द्रम्पद्यम् च कृम् विराजेवान्नाद्य स्वात्रास्थवृत्रित्या हैषवामीथो ह्यमाक्षिगप्ते स्वामजिविद्योतिरित्या हैभ्येन सम्भरति सोमो वैरा प्रागपाकृदकधरात्याह्य एवेन भरत्यमुकायेन भवन्ति एवं वेदेत्यां वेद्याभ्यन्ति वा एतत्पगृह्णाधिं प्राणावांसः पजपस्तो पुनरपि सजले प्राणानेव पशुनिदथामपि सदलस्माग्धौ द्वौ प्राणाः प्राणो वाकौ शरयतु पाकष्म ग्रा ग्रायत्य प्राणमेवानुप्रियञ्च हस्माहोपवेद प्रादस्वन एवायज्ञस्थापयाक्षरा गायत्री गायत्रम् रागस्तवनम् राजस्तवर्प द्वितीयमेकादशाक्षरात्प्यञ्जनकं सवनम् माभ्यञ्जनमेव न्दवाचन्द्रिस्कन्दाभ्रा यत्रीभाव पवित्र युधिवादित्याः वाजैवैनं पवयति विष्णोभ्यामित्याह विष्णो चेतापपुंशो यौ सोमस्य गभस्ति बोधयित्याह गभस्तिनाज्यैनं पवयति देवो देवानां पवित्रमसीत्याह देवोच्चैदं देवानां पवित्रेषां भागो भागस्तेभ्यजैनं निर्मायस्य स्वाङ्कृत प्राणमेव स्म इदस्मदयस्तेभ्यपार्च्याहोदेव मनुष्ठे प्राणान्धरे क्षमन्विहेत्या प्राण स्वाहात्याः प्राणामै स्म स्तेश्वक्षञ्जुहोस्तामरे जिवेत्या देवावले जिवास्ते यन्तानेव देन प्रेणा नियदि कामय नवरुषक पञ्चन्यस्याल् विलीताहस्ते निर्ध्या दृष्टिमेव नियच्छति यदि कामये तावषकस्यादित्युत्थाने निवृद्ध्या दृष्टिमेव त्यक्षति यद्यभितरे सत्त्वाहोक्षामे न हन्तिदूरे स्यादातमितोऽस्तिष्ठे प्राणमेवास्यानुगत्यहन्ति यद्य प्राणे सालयामि प्राणः प्राणमेवास्य सालयेतवैलम् पवै नेत्रे लोकालेभिरेव ब्रह्मपादिनो वदन्ति त्रयः पशूनागम् हस्तादानायुतृ स्ते कवगृा जलस्ना पशूना देवाभि यज्ञे कुर्वदते देवा उपागुंसौ यज्ञगुंसग्रस्ताप्यमापश्यन्तरौ पागुंसौ समस्थापयन्ते देवानभ्यायन्त ते देवाभ्यजगिन्द्रौपाधावन्तारिन्द्रोन्तर्यामेनान्तरधन्तर्यावस्यामत्राव्यान्त न्तरे क्षमित्याहैकेर्यमानाद्धे ते देवामन्यतमभोद्यद्वयज्ञस्मै कृतेभरे देवेन वहे परैश्चेत्त प्रभेत्येव देवा परे चेता भरेतानुभयानण्डषा देवेन वहे परैश्चेत्याह ये देवदेवाः परे गेदाव यानन् मामयत्तर्यामेव्याह यज्ञानन्तरेत्य प्रमायकस्यावित्रमान्तर्यामोत् प्राणापानो यत् प्रागस्वन्दर्यामो व्यानव पाकौ शतमनोऽयं कामये च प्रमायकस्या पृष्टौ तस्य धादये ज्ञानेनैवास्य प्राणा मानो मिक्षप्त्य लग्न स्पृष्टौ रस्य धादये ज्ञानेनैवास्य प्राणापानो सन्तनो निर्वमाय जयति वाग्वायशायधे इन्द्रवायवोयधे इन्द्रवायवाघ्रा ग्रहागृत्यम् देवागमेवानुप्रयन्दि वायुम् देवाब्रुभान् स्वमगौ राजानयो वृणे मदग्रायेव वाग्रहागृत्यान् रागरितस्मादैन्द्रवायवाग्राग्रहागृत्यम् देववद्भ्यान् स्वभो यत्तं देवालोपाधुप्रवन्तैर्वायुमब्रवर्ण्योदन स्वाब्रमे स्वरं वृणे मद्देवत्या त्या नियुव्या नित्यं दैनमे वायुदेवास्पदयत्यस्माद्यद्भो यत्प्रभात विषयन्ति वायुविहितस्य वयितास्पदयितादस्य विग्रहन्नाविन्द्रान् सानिरब्रमेद्वरं वृणाथमयागृह्णेध्वं मध्येवत्या एव यवेन सह युग्यादाय तस्मादीन्द्र वायवस्सह युगेतामिन्द्रामभ्यो हक्रम् ह्य व्यागदा तस्मादयम् व्याघृता वागुज्यदे तस्मा सगदिन्द्रा मध्यदृच्यते दुर्भागवे द्वौ हि समदावर्णीता मित्रम् दैवाभ्रुवान् सोमगौ राजा हनावेलु सोमब्रमे वा अहम् मित्रमस्ते लिलो भ्रुवनहनामेवलम् ऋणे पयसैव पयसा श्रेणम् जिरस्मा पसवो माः क्रामन् मित्रस्सन् क्रोरम जले क्रोरमिव ेत्रावरुणो वेदासेनादित्रगौधमशुभजमानम् पुरा खलु मावैवं मित्र वेद परत्रोरं चक्रुडः पशवक्रमिष्यन् केदस्ता देवरं वृणेभ्यञ्जैवेषायजसहकृत्या ृत्येतस्मात्राज्ञा राजा नवं शभुवाैश्य न वैश्यकं शोद्रेण शोद्रन्न वा हिदन् वाणमासे दव्यावरुतन्द्रेण देवा मैत्रावरुणावब्रवं हिदन्न विमासय तमिलितावब्रूतां परमृणामहाय देवावत्तोग्रहो निख्याताय तस्मादैन्द्रवाजर्व मैत्रावरुणा द्यक्ष्ये प्राणापालोक्ष्येत यदपागस्वन्दनयामो मित्रो हरजन यद्वरुणो वा इदम् योच्छब्जन्मेत्रा वरुणो गृत्ये यज्ञस्य शिरोच्छिद्यते दे देवा अश्विनावब्रमन्भिडजो वैष्ठयज्ञस्य शिरः प्रतिधत्तमिलितामब्रूधाम् परम् मृणामहे एव नामत्राभिनित्यता मिलिताभ्यामेतमाश्रुनवगृह्णन्तो वैतौ यज्ञस्य शिरः प्रत्यधत्तान्योच्यते यज्ञस्य निष्कत्वेतौ देवा अब्रुमण्डभूतौ वा हिमोपनश्च जनो ब्रह्मणेन भेषजन्न कार्यमपोतो ह्ये येषो मेद्भ्यो योऽभिरक्तो बहिस्पवमानेन पवयिन्ताभ्या वेदमाच नमः तस्मादेवं विदुषा वैष्पवमानमुपसत्यः पवित्रम् वेदैष्पवमान आत्मान एव तस्मादुरपात्रमुपनिधाय ब्राह्मणम् दक्षिणतोजम् कुर्याज्ञापदेव भेषजम् तेन गतो समर्थगमस्तकृतम् भवति ब्रह्मपादिनावसन्धिकस्मादेकपात्राद्य त्यान्ते यद्विमात्रा हूयन्ते यदि यदेकपात्रा नित्यन्ते तस्मादेको प्राणोद्विमात्रा हूयन्ते यदस्माद्वौ द्वौ गिष्ठा प्राणा प्राणावागेते यद्विदे भत्या पशवयिधायदिनाम् ओर्वान् द्विदेभक्तेभ्यो भक्पगेत पशुभ्यः प्राणानन्तर्जशीलप्रमायकस्या द्विदेवत्याम् भक्षयते नापयते प्राणाने त्वाोनुभक्वय देवाग्न्द्रवायवश्चक्षुर्मैत्रावर्णश्रोत्रमाश्विनः पुरस्तादीन्द्रवायवं भक्षय जितस्मात् पुरस्ताद्वाचावति पुरस्तान् मैत्रावरणं तस्मात् पुरस्ताच्चक्षुषा क्तान्तरप्राणाय रक्त खलु वे यज्ञस्य पदरन्तेन रिक्तानि पात्राणि धारयणि क्रियमाणमेव तद्यज्ञस्य य रक्षतामनङ्गवचाराणि दक्षिणस्या विध्वाणस्योत्तरस्याम् वर्तन्याकं सालयति वाच्येव वाचम् तथा जातैयथवलापरिशेन यज्ञस्य सन्तत्यै बृहस्पतिर्देवानाम् पुरोहिलाशेच्छण्डावर्गावसुरानाम् बृह्मन्वन्तो देवासन् बृहन्वन्तोऽसुरास्ते न्नभिन्ते देवा शण्डावन्कामुपामन्त्रयन् तावभ्रूताम् वरं प्रणामहैग्रहावेवनावत्राभित्येताभ्यामेतौ शुक्रामन्थिणावगन्ततो देवा अभवन्वरासुरायश्चैवं विगुणः शुक्रामन्थिणौ नित्ये देभवत्यात्मनापरास्यभ्यानुभवतितौ देवा अपुनध्यात्मन इन्द्रायाजुहवरमणत्तौ षण्डावर्तौ सहामुनेभि ृष्याद्य मे लद्वैष्ठे वैनाभायजुहवीन्द्रोख्यैतानि रूपादवा नित्यशुक्रश्चन्द्रमा मञ्च विगृह्य प्राञ्चामस्तस्पात् प्राञ्चौर्यन्तो नपश्यं च प्रत्यञ्चाभाव्यं जक्षु देवा शुक्रा मञ्चिनो भाषि त्तर वेदरभिदः परिक्रम्य जुहुदस्तस्मादभिध नासिका चक्षुषे तस्मान्नासिकया चक्षुषे शर्वदः परिक्रामो देवामेया प्राजे राहुदे आसन्तागस्ताभिप्राणदन्तया प्रदे पश्चादसुरा आसन्तागस्ताभिरबाणदन्तय प्राजेरन्याहुदय भूयन्ते प्रत्यञो शुक्रावन्थिनो पश्चाच्चैव स्मात्परा दे प्रजा प्रवेयन्ते प्रदे शुक्रा मन्सि नौवान प्रजाः प्रजायन्ते त्रेश्चाद्यात् सुवीराः प्रजा प्रजनयन् परे हि शुक्र शुक्रजो प्रजा प्रजा प्रजनयन् परे हि मन्से मन्सि सो जत्या हैता वे सुवीराया अत्रे हैतास्व प्रजाया आद्यायैवव्यराज्ञ प्रजागागे नाक्षस्पयत्तत्परामदत्तद्भिगङ्कदम् प्राविशत्तद्भिकङ्कतेना रमद तद्यवम् प्राविशत्तद्यवेन मद तद्यवस्तय भक्त्यञद्वैकङ्कदम् मन्सिपात्रम् भवति भक्तभिश्रेणादि प्रजापते चक्षुः सम्भरति ब्रह्मभागिना वदम् दिगस्मात् सत्यान् मन्सिपात्रय सलो नाच्छुदयित्यां हेति प्रोढाम् विदष्टवेदान्धा ध्वर्यस्यादार्जमार् चेत् तस्मान् माष्टुते देवा वै यज्ञे कुर्वदुधा कुर्वदने देवाः ग्रहणाद्धान् ये देवादिव्यश्चेत्याभ्ये मेन तु सर्वाभ्यो श्वे भस्त्वा देवे भैत्या हवेष्वेव केषदेवतया वाग् देवे शोभा क्रामैत्या च देवाक्रान्तायान्तोष्णे ग्रहाण ग्रन्थतसामन्यतवानन्तर्यन्ति वैवेग्रहणम् प्रत्यागच्छत्तथा ग्रहणस्याग्रहणत्वम् तस्माधाग्रहणे वाग्तोष्णे यति यति ेत्य पावधृयत्यैवज्ञमारभ्यपायं विसृहङ्करोत्युद्गात्रे नेपद्रवे प्रजापद्यायदा प्रजापेपदत् प्रजा अभिजग्रियस्मासञ्जातङ्गोरभिजघ्रच्चत्मा यथा क्रेण समले समलेऽभिगृह्णात्यापरिष्टादालय दलय तजैव गृह्णाधिप्रजलयत्येव तद्ब्रह्मपादिना वदन्ति यत्रैकनिष्ठा छन्ददायुम्भवी सर्वाणि समनानि यत्रयैवत्सोणस्तमेव ददेव त्रयौ सर्वाणि सवनानि वहदिनस्माद् वत्सवपाकृतम् गौरभिनिवर्तते